अथ सोमदेव भट्टविरचिते कथा सरित्सागरे प्रथम लम्बके सप्तमस्तरङ्गः ततो गृहीतमोऽहम् राजान्तिकमुपागमम् तत्र च श्लोकमपठद्विजः कच्चित् स्वयम् राजा सम्यक् संस्कृतया गिरा तत्रालोक्य राजा सविनयोऽब्रवीत् स्वयम् कथय देवेन तच्छ्रुत्वानुग्रहम् राज्ञः शर्ववर्माभ्यभाषत इतो राजन् निराहारो मौनस्थोऽहम् तदागतः ततो ध्वनिवराख्यैषे जाते तीव्रतवः कृशः क्लान्तः पतितवानस्मि निःसञ्ज्ञो धरणीतले उत्तिष्ठ पुत्र सर्वम् ते सम्पत्स्यत इति स्फुटम् शक्तिहस्तः पुमानेत्यजाने प्रबुद्धः क्षुत्पिपासाधीनः स्वस्थ अध देवस्य निकटम् प्राप्य भक्तिभराकुलः स्नात्वा गर्भगृहम् तस्य प्रविष्टो भूवमुन्मनाः ततोऽन्तः प्रभुणादेन स्कन्देन मम दर्शनम् दत्तम् ततः मुखे मूर्ता सरस्वती अधासौ भगवान् साक्षात् षड्भिरान पङ्कजैः सिद्धो वन्न इति सूत्रमुदैरयतु तच्छ्रुत्वैव मनुष्यत्व सुलभा चाबलाद्बता स्वयमेव मयोदितम् अथ ब्रवेत्स देवो माम् नावदिश्य स्वयम् यदि अभविष्यदिदम् शास्त्रम् पाणिनीयोपमर्दकम् अधुना स्वल्पतन्त्रत्वात् का तन्त्राख्यम् भविष्यति मद्वाहन कलापस्य नाम्ना तथा इत्युक्त्वा शब्दशास्त्रम् तत्प्रकाश्याभिनवम् लभुः साक्षादेव समाम् देवः पुनरेवमभाषत युष्मदीयः स राजापि पूर्वजन्मन्यभो दृशिः भरद्वाजमुनेः शिष्यः कृष्ण तुल्याभिलाषामालोच्य स चैकाम् मुनि कन्यकाम् ययावकस्मात् पुष्पेषु शरघातरसञ्ज्ञताम् अकस्य शब्दो मुनिभिरवतीर्णम् इहा अधुना देवी त्वे तस्यैव मुनिकन्यका इत्थ दृश्यवतारोऽयम् नृपतिः सादवाहनः इत्युक्त्वान्तर्हि ते देवे निरगच्छ माम् बहिः तण्डुला मे प्रदत्ताश्च तत्र देवोपजीविभिः ततोऽहमागतो राजंस्तण्डुलास्तेज मे पथि चित्रम् तावन्त एवासम् भुज्यमाना दिने दिने एवमुक्त्वा स्ववृत्तान्तम् विदते सर्ववर्मणि उदतिष्ठन् कृपस्नातुम् प्रभुष्टः सादवाहनः ततोऽहङ्कृतमौ नत्वाद् व्यवहार बहिष्कृतः अनिच्छन्तम् तमामन्त्र्य निर्गत्य नगरात् तपसे निश्चितो द्रष्टुमागतो विन्ध्यवासिनीम् स्वप्नादेशेन देव्या च तयैव प्रेषितस्ततः विन्ध्याकवीम् प्रविष्टोऽहम् त्वाम् द्रष्टुम् भीषणामि माम् पुलिन्दवाक्यादासाद्य सार्थम् दैवात् कथञ्चन इह प्राप्तोऽहमद्राक्षम् पिशाचान् सुबभूनमून् मया पिशाच भाषेयम् कारणम् उपगम्यततश्चैतान् त्वाम् श्रुत्वोज्जयिनीगताम् प्रतिपादितवानस्मि यावदभ्यागतो भवान् दृष्ट्वा त्वाम् स्वागतम् कृत्वा चतुर्थ्याभूतभाषया मया जाति स्मृतेत्येष वृत्तान्तो मेऽत्र जन्मनि एवमुक्ते गुणाढ्येण तत्रासौ निजशापान्तम् प्रतिपृष्टो मया ब्रवीत् दिवानास्ति प्रभावो नस्तिष्ठ रात्रौ वदाम् यदः तथेति चाहम् तत्रस्थ प्राप्तायाम् निशिवल्गताम् तमवृच्छम् प्रसङ्गेन भूतानाम् हर्षकारणम् पुराविरिञ्च संवादे यदुक्तम् शङ्करेण ततु शृणुवच्मीति मामुक्त्वा भूतिवर्माधसोऽ ब्रवीत् दिवानैषाम् प्रभावोऽस्ति न पूज्यन्ते सुरा भुज्यते विधिना वापि तत्रैते प्रभवन्ति च अमांस भक्षसाध्वी वा प्रबद्धांश्च नाक्रामन्ति कदाचन इत्युक्त्वा मे स तत्कालम् भूतिवर्माब्रवीत् पुनः गच्छागतो गुणाज्यस्ते शापमोक्षस्य कारणम् श्रुत्वैतदागतश्चास्मित्पञ्च दृष्टो मया प्रभो कथयाम्यधुना तान् ते पुष्पदम् तोदिताम् कथाम् किन्त्व एकम् कौतुकम् मेऽस्ति कथ्यताङ्केन हेतुना स पुष्पदम् तस्पञ्चापि श्रुत्वा गुणाध्यस्तवभाषत गङ्गातीरे ग्रहारोऽस्ति नाम्ना तत्र गोविन्द दत्ताख्यो ब्राह्मणो भूद् बहु तस्य भार्याग्निदत्ता च बहूपपदिदेवता स कालेन द्विजस्तस्याम् पञ्च पुत्रा न जी जनतु ते च मूर्खाः दत्तस्य विप्रो वैश्वानरो नाम वैश्वानर गोविन्द दत्ते तत्कालम् गृहादपि बहिस्थिते तत्पुत्राणामुपागत्य कृतम् तेनाभिवादनम् हासमात्रम् च तैस्तत्र कृतम् प्रत्यभिवादनम् ततः स कोपान् निर्गन्तुम् प्ररेभे तद्गृहाद्विजः आगते नाथ गोविन्द दत्तेन स तथा विदः वृद्धः पृष्टोऽनुनीतोऽपि गगादैवम् पुत्रास्ते पतिता मूर्खास्तत्सम्पर्कात् भवानपि तस्मान्न भोक्ष्येत् मद्येः प्रायश्चित् अथ गोविन्द दत्तस्तमुवाच शपथोत्तरम् न स्पृशाम्यपिजात्येतानहम् कुतनयानिति तद्भार्यापि तथैवैत्या तमुवाचातिथिप्रिया ततः कथञ्चिदातिथ्यम् तत्र वैश्वानरोग्रहीत् तद्दृष्ट्वादेव दत्ताख्यस्तस्यैकस्तनयस्तदा अभूद् गोविन्द दत्तस्य नैर्ध्युण्येनानुतापवान् व्यर्थम् जीवितमालोच्यपि तृभ्यापथदूषितम् सगुर्वेदस्य तपसे ययौ बदरिकाश्रमम् ततः पन्नाशनः पूर्वम् धूमपश्चाप्यनन्तरम् तस्थौ चिराय तपसे तोषयिष्यन् नुमापतिम् ददौ च दर्शनम् तस्य शम्भुस्ते व्रतमोर्जितः तस्यैवानुचरत् पञ्चसव्रेवरमीश्वरात् विद्याः प्राप्नुहि भोगांश्च भु विभुङ्क्षवत तस्तवा तदस्स गत्वा विद्यार्थीपुरम् पाटलि पुत्रकम् सिषेवे वेद कुम्भाक्षमुपाध्यायम् यथाविधि तत्र स्थन्तमुपाध्याय पत्नी जातु मन्त्रस्वाम्याख्यमभ्यर्थ्य विद्याः सम्यगधीतवान् कृत विद्यञ्च तम् तत्र सुता सुषम्माख्यस्य सुभगम् श्रीर्नाम सोपितान् दृष्टवान् कन्याम् स्थिताम् वातायनोपरि विहरन्तीम् विमानेन चन्द्रस्यैवाधिदेवताम् बद्धा विवतया अन्योन्यम् मारशृङ्खलया दुषा नापधर्तुम् समर्थौ तो बभोवतुर्भावपि सा रतस्यैकयाङ्गुल्या मूर्तये एव इतो निकटमेहेति सञ्ज्ञाम् चक्रे रूपात्मजा ततः समीपम् तस्याश्च या वान्तः गूढाम् राजसु तादृताम् सकर्तव्यविमूढः सन्नुपाध्यायगृहम् ययौ लुलोढ तत्र धरणौ न किञ्चित् वक्तुमीश्वरः तापेन दह्यमानोन्तन्मोकः यदा वितत्य कामजैश्चिह्नैरुपाध्यायेन धीमता युत्या पृष्टः कथञ्चिच्च यथा वृत्तम् शशंसः तद्बुद्ध्या तमुपाध्यायो विदग्धो वाक्यमब्रवीत् दन्तेन पुष्पम् मुञ्चन्त्या तया सञ्ज्ञाकृता तत् पुष्पदन्ताक्ष्यम् पुष्पाढ्यम् सुरमन्दिरम् तत्रागत्य प्रतीक्षेधासाम् प्रतङ्गम् यदा विधि श्रुत्वेति ज्ञान सञ्ज्ञार्थस्स तत्या च शुचम् युवा ततो देवगृहस्यान्तस्तस्य गत्वा स्थितो भवतु साप्त्यष्टमीम् समुद्दिश्य तत्र राजसुताययौ एकैव देवम् द्रष्टुम् जगद्भागारमधा दृष्टोऽत्र द्वारपट्टस्य पश्चात् शोधप्रियस्तया गृहीतानेन चोत्थाय सा कण्ठे सह चित्रम् त्वया कथम् ज्ञाता सा संज्ञेत् सुदिते तया उपाध्यायेन सा ज्ञाता न मयेति मुञ्च मामपि दग्धस्त्वमित्युक्त्वा तत्क्षणात् कृधा मन्त्रभेदभयात् साधराजकन्या ततो ययौ सोऽपि गत्वा विवित्रेताम् दृष्टनष्टाम् स्मरन् प्रियाम् देवदत्तो वियोगाग्निविकलज्जीवितो भवतु दृष्ट्वा दन्तादृशम् शम्भुः प्राक् प्रसन्नः किला दिशतु स्त्रीवेशन्तम् गणोत्तमः हारयच्छयन् साभूद्वृद्ध ब्राह्मणरूपशतु तदस्तेन समम् गत्वा तम् सुशर्म महीपतिम् जनकम् सदृशुस्तस्याः स जगार गणाग्रणीः पुत्रो मे प्रोषितः क्वापि पुरे गुप्ते स्त्रीति संस्थापितो युवा तदप्पञ्चशिके याते स्वप्रियान्तः स्त्रीवेशः सद्विजस्तस्या विस्रम्भास्पदताम् ययौ एकदा चोत्सुका रात्रौ तेनात्मानम् प्रकाश्यसा गुप्तङ्गान्धर्वविधिना परिणीता रूपात्मजा तस्याञ्च धृतगद्भायान्तद्विजम् सगणोत्तमः स्मृतमात्रागतो रात्रौ ततो नैषीतलक्षितम् ततस्तस्य समुत्सार्य यो न स्त्रीवेशमाशुतम् प्रातः गत्वा च सुशर्मनुपमभ्यथात् अद्य मया राजम् पुत्रस्तद्देहि मे स्नुषाम् ततः तच्चापभय सम्भ्रान्तः मन्त्रिभ्य इदमब्रवीत् न विप्रोऽयमयम् कोऽपि देवो मद्वञ्चनागतः एवम् प्राया भवन्तिह वृत्तान्ताः सततयतः तथा च पूर्वम् राजा भूत्तपस्वीकरुणापरः दाताधीरशिभिर्नाम सर्वसत्त्वाभयप्रदः तम् वञ्चयितुमिन्द्रोध कृत्वा श्येन वपुष्वयम् मया कपोतवपुषम् धर्ममन्वपद्रुतम् कपोतश्च भयाद्गत्वा शिबेरम् कमशिश्रियतो मनुष्यवाचाश्येनोथ सतम् राजानवब्रवीत् प्राणन् भक्ष्यमिदम् मुञ्च कपोतम् क्षुदिदस्य मे अन्यथा माम् मृतम् विद्धि कस्ते धर्मस्ततो भवेत् तदश्चिदिर्वाचयिनम् एष मे शरणागतः अत्याज्यस्तत्तदाम्यन्यन्माम् समेतत् समन्तवा श्येणो जगादयद्येवमात्माम् सम्प्रयच्छ मे तथेति तत् प्रहृष्टः सन् स राजा प्रत्यपद्यता यथा स्वमुत्कृत्यारोपयन् नृपः तथा तथा भवतु ततशरीरम् सकलम् तुलाम् राजाध्यरोपयतु साधु साधु शमन्त्वे तद्दिव्या वागुदभूत्ततः इन्द्रधर्मौ ततश्च्यक्त्वा रूपम् श्ये न कपोतयोः तुष्टावक्षतदेहन्तम् राजानम् चक्रतुशिविम् दत्त्वा चास्मै वरान्याम्स्तावन्तर्धानमीयतु एवम् मामपि को जिज्ञासुरागतः इत्युक्त्वा सचिवान् स्वैरम् तमुवाच भयप्रः को विप्ररूपम् गणोत्तमम् देहि साद्यैव स्नुषा मय ग्वा रक्ष्यशन स्वय मेंध विप्रूपी गणों ब्रवीत तर् पुत्राय राजजन्मे देह स्वा विधि तच्छ्रुत्वा शापभीतेन राज्ञा तस्मै निजासुता सा दत्ता देवदत्ताय ततः पञ्च शिखो ययौ देवदत्तोऽपि ताम्भूयः प्रकाशम् प्राप्य वल्लभाम् पुत्रस्य श्वशुरस्य विभूतिषु कालेन तस्य पुत्रम् च दौ च राज्ये मनीधरम् नाम सुषर्माशिश्रिये ततो दृष्ट्वा सुधैश्वर्यम् कृतार्थस्त तपो वनम् तया साकम् देवदत्तोऽप्यशिश्रियतु तत्रा राध्य पुनः शम्भुम् चक्वामर्चकळेवरम् तत्प्रसादेन तस्यैव गणभाव ोज्झितात् पुष्पात् सञ्ज्ञाम् न ज्ञातवान् यतः अतः स पुष्पदन्ताख्यः सम्पन्नो गणसंसदि तद्भार्या च प्रतिहारी देव्या जाता जयाभिधा इत्थम् मदाख्या मधुनाशृणु यस्य गोविन्द दत्ताक्षो देव दत्त पिता द्विजः तस्यैव सोम दत्ताक्षः पुत्रोऽहमभवम् पुरा तेनैव मन्युनागत्व तपश्चाहम् हिमाचले अकार्षम् बहुभिर्माल्यैः शङ्करम् नन्दयन् सदा तथैव प्रकटीभूतात् प्रसन्नादिन्दुशेखरात् शक्तान् स भोगलिप्सेन तद्गणत्वम् मयावृतम् यः पूजितोऽस्मि भवता स्वयमाहृतेन भविष्यसि मे गणस्त्वमित्यादिषच्च सवि अधमत्यवपुर्विमुच्य पुण्याम् सहसा तद्गणतामहम् प्रपन्नः इति धोर्जटिना कृतम् प्रसादादभिमानम् मम माल्यवानितीदम् सोऽहङ्गतः पुनरिहाद्य मनुष्यभावम् शापेन शैलदु हि दर्बत काणभूते तन्मे कथाम् हलकृताम् कथया तुनात्वम् कथापीठलम्बके सप्तमस्तरङ्गः ओं तत्सत्